अपरे त्वब्रुवन्नागा धर्मात्मानो दयाळवः अबुद्धिरेषा भवताम् ब्रह्महत्या न शोभनम् सम्यक् सद्धर्ममूला वैव्यसने शान्तिरुत्तमा अधर्मोत्तरता नाम कृत्स्वम् व्यापादये जगत् अपरे त्वब्रुवन्नागाः जातवेदसं वर्षैर्निर्वापयिष्यामो मेघा भूत्वा स विद्युतः सद्भाण्डम् निसि गत्वा च अपरे भुजगोत्तमाः प्रमत्तानां हरन्त्वा सुविघ्न एवं भविष्यति यज्ञे वा भुजगास्तस्मिन् सतसोऽथ सहस्रशः जनान् दशन्तु वै सर्वे नैवं त्रासो भविष्यति अथवा संस्कृतम् भोज्यम् दूषयन्तु भुजङ्गमाः स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे यज्ञविघ्नम् करिष्यामो दीयतां गतोऽसौ न करिष्यति यथेप्सितम् अपरेत्वब्रुवंस्तत्र जले प्रक्रीडितम् रूपम् गृहमानीय बध्नीमः क्रतुरेवम् भवेन्नसः अपरेत्वब्रुवंस्तत्र नागाः पण्डितमानिनः द दास दशामस्तम् प्रगुह्यासु कृतमेवम् भविष्यति छिन्नम् मूलमनर्थानाम् कृतेतस्मिन् भविष्यति येषा नो नैष्ठिकी बुद्धिः सर्वेषा मेक्षणस्वयः अथ यन्मन्यसे राजन द्रुतम् तत् संविधीयताम् इत्युक्त्वा समुदेक्षन्त वासु किम् पन्नगोत्तमम् वासु किश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् नैषावो नैष्टिकी बुद्धिर्मताकर्तुम् सर्वेषामेव मे बुद्धिः पन्नगानाम् न रोचते किम् तत्र संविधातव्यम् भवताम् स्याद्धितम् तु यत् सेयः प्रसाधनम् महात्मनः ज्ञातिवर्गस्य सौहार्ददात्मनश्च भुजङ्गमाः ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजङ्गमाः न च जानाति मे बुद्धिः किञ्चित् कर्तुम् वचो हि वः भवताम् यद्धितम् भवेत् अनेनाहम् बृसन्तप्ये गुणदोषौ मदाश्रयौ इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि वासुक्यादिमन्त्रणे सप्तत्रिंशोऽध्यायः